श्रीहरये नमः अथ पञ्चविंशोऽध्यायः श्रीभगवानुवाच गुणानामसमिश्राणां पुमान्येन यथा भवेत् तन्मे पुरुषवर्येतम् उपधारय संसतः समोदमस्ति ते स्तम्भ आशीर्भिता सुखम् मदोत्साहो यशः प्रेतिर्हास्यं वीर्यं बलोद्यमः क्रोधो लोपो नृतं हिंसा याज्ञाधं बक्लमखलिः सोकमोहौ विषादार्त्रे निद्राशाभि अनुद्यमः सत्त्वस्य रजश्चै चैतास्तमसश्चानुपूर्वसः वृत्तयो वर्णितप्राय सन्निपातमतो शृणु सन्निपातस्त्वमहमिति ममेद्युद्धवयामतिः व्यवहारसन्निपातो मनो मात्रेन्द्रियासुभिः धर्मे चार्थे च कामे च यादौ सौ परिनिष्ठितः गुणानां सन्निकर्षोऽयम् श्रद्धारतिधनावकखा प्रवर्त्तिलक्षणनिष्ठा पुमान्यर्हि गृहाश्रमे स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सन् पुरुषं सत्त्वसंयुक्तम् अनुमीयाश्चमाधिभिः कामादिभिराजो योक्तम् क्रोधात्यैस्तमसायुतं यथा भजति मां भक्त्या निरपेक्षस्वकर्मभिः तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियमेव वा यथा आशिष आशास्य मां भजेतस्वकर्मभिः तं रज प्रकृतिं विद्यात् किं सामासास्य तामसं स त्वं जीवस्य नैव चित्तजायैस्तु भूतानां सज्जमानो निभध्यते यथेतरो सत्वं भास्वरं विशदं शिवं तथा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् यथा जयेत्तमः सत्त्वं रजःसङ्गं विधाचलं तथा दुःखेन युज्येत कर्मणा तमोमूटं लयं जडं युज्येत सोकमोकाभ्यां निया हिंसयाशया यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः देहभयमनोसङ्गं तत्सत्त्वं विद्धिमद्बधं विकुर्वन् क्रियया चाधीरनिर्वृत्तिश्च चेतसा गात्रा स्वात्यं रजये भ्रान्तं रजयेत् शीतश्चित्तं विलीयेत चेतसो ग्रहणे क्षमम् मनो नष्टं तमोग्लानेस्तमस्तदुपधारय एदमाने गुणे सत्त्वे बलमेधते असूराणां च रजसे तमस्य ध रक्षसा प्रस्वापं <वैं>। तमसा जन्तोऽस्तु इयं त्रिषु सन्ततम् उपर्युपरि गच्छन्ति सत्त्वेन रससान्तरचारिणः सत्त्वे प्रलीना स्वर् यान्ति नरलोकं रजोलयाः तमोलयास्तु निरयं यान्ते मामेव निर्गुणाः मदर्पणं निष्फलं वा सात्त्विकं राजसम्बलसङ्कल्पं हिंसाप्रायाधितामसं कैवल्यं सात्विकं ज्ञानं रजो वैकल्पिकं प्राकृतं तामसं ज्ञानं मन्निष्टं निर्गुणं स्मृतं वनं तु सात्विको वासो ग्रामो राजस उच्यते तामसं द्यूतसधनं मन्निकेतं तु निर्गुणं सात्त्विककारको सङ्गीराघान्तो राजसस्मृतः तामसस्मृति मदभाश्रय सात्त्की श्रद्धा कर्म श्रद्धा तो राजमस्य धा श्रद्धा मत्सवायां तो निर्गुण पद्यं भूतं मनायस्तम् आकार्यं सात्विकं स्मृतं राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदासुषि सात्विकं सुखमात्मोत्तं विषयोत्तं तुराजसं, राजसं तामसं मोघधैन्योत्तं निर्गुणं मदभाश्रयं द्रव्यं देसफपलं फलं कालो ज्ञानं कर्म चकारकः श्रद्धावस्था कृतिर्निष्ठा सर्वे गुणमया भावा पुरुषा व्यक्ततिष्ठिताः दृष्टं श्रुतम् अनुधातं बुद्ध्या वा पुरुषर्षभा एता संश्रुतयः पुंसो गुणकर्मनिबन्धनाः येन मे सौम्या गुणा जीवेन चित्तजाः भक्तियोगेन मन्विष्टो मद्भावाय प्रपद्यते तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवं गुणसङ्कं विनिर्धूय मां भजन्तु विचक्षणाः निवसङ्गो मां भजेत् नप्रमत्तो न प्रमत्तो जितेन्द्रियः सत्त्वसंसेवया मुनिः सत्त्वं चाभिजयेत्युक्तो नैरपेश्येण सान्तधीः सम्भद्यते गुणैर्मुक्तो जीवो जीवं विकाय मां जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः ये मयैव ब्रह्मणा पूर्ण नै बर्हेर्नान्तरश्चरेत् ना इति श्रीमद्भगवते महापुराणे एकादशस्कन्ते पञ्चविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमगराजकी जय